मार्कण्डेयपुराणम् अध्यायम् इलवन् पुत्र उवाच निषेकं मानवं स्त्रीणां बीजं प्राप्तं रजस्यथा विमुक्तमात्रो नरकात् स्वर्गाद्वाभिप्रपद्यते तेनाभिभूतम् तत्स्थैर्यं यादिबीजद्वयं पितः कललत्वं बुद्बुदत्वं बुदत्वं तदः पेषित्वमेव च पेष्यां यथानुबीजं स्यादः कुरस्तद्वदुच्यते अङ्गानां च तथोत्पत्तिः अङ्गानां च तथोत्पत्तिः पञ्चानामनुभागशः उपाङ्गान्यङ्गुलीनेत्र नासास्य श्रवणानि च प्ररोहं यान्ति चाङ्गेभ्यस्तद्वत्तेभ्यो नखादिकं त्वचिरोमाणि जायन्ते केषाश्चैव ततः समं समृद्धिमायादि तेनैवोद्भवकोषकं नारिकेलफलं यद्वत् सकोशं वृद्धिमृच्छति तद्वत् प्रयात्यसौवृद्धिं सकोशोऽद्धो मुखस्थितः तलेदु जानु जानुपार्श्वाभ्याम् करौन्यस्य स वर्धते अङ्गुष्टो चोपरिण्यस्थौ जानोरग्रे तथाङ्गुली जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका स्विचौ पार्ष्णिद्वयस्थे बहिष्टिदे जन्धुस्त्री बाहुजङ्घे बहिष्ठिते एवंवृद्धिं क्रमाद्यादिजन्धुस्त्रीगर्भसंस्थितः अन्यसत्त्वोदरे जन्तोर्यथारूपं तथा स्थितिः काठिन्यमग्निनायादिभुक्तपीतेन जीवति पुण्या पुण्याश्रयमयी नाडी नाडीचाप्यायनी नाम नाभ्याम तस्य निबध्यते स्त्रीणां तथान्द्रसुषिरे सा निबद्धोपजायते क्रामन्दिभुक् दपीतानि स्त्रीणां गर्भोदरे यथा तैराप्यायिददेहोऽसौ जन्तुर्वृद्धिमुपै दिवै स्मृतिस्तस्य प्रयान्त्यस्य बह्व्यः संसारभूमयः तदो निर्वेदमायादि पीड्यमान इतस्ततः पुनर्नैवं करिष्यामि मुक्तमात्र इहोदराद तथा तथा यदिष्यामि गर्भं नाप्स्याम्यहं यदा इति चिन्तयदे स्मृत्वा जन्मदुःखशतानि वै यानि पूर्वानुभूतानि दैवभूतानि यानि वै तदकालक्रमाजन्तुः नवमे दशमे वापि मासि सज्जयते यतः निष्क्रम्यमाणो वादेन प्राजापत्येन पीड्यते निष्क्राम्यते च विलपन् हृदि दुःखनिपीडितः निष्क्रान्तश्चोदरान्मूर्च्छामसह्यां प्रतिपद्यते प्राप्नोति चेतनां च सौ वायुस्पर्श समन्वितः ततस्तं वैष्णवी माया मोहिनी तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते भ्रष्टज्ञानो बालभावं तदो जन्तुःप्रपद्यते तदकौमारकावस्थां यौवनं वृद्धतामपि पुनश्च मरणम् तद्वज्जन्म चाप्नोति मानवः ततः संसारचक्रेस्मिन् भ्राम्यदे खडियन्द्रवत् कदाचित् स्वर्गमाप्नोति कदाचिन्निरयं नरः नरकं चैव स्वर्गं च कदाचिच्च मृदोऽश्नुते कदाचिद नर्जास्व कर्म कदाचित भुक्द कर्माच सोशु कदाचिभुर्मा च मृतस्वे न गति कदाचिद्पैश्चातेत्र शुभाशुभ स्वोके नरकेजोत्तम नरकेषु महद्दुःखमेदद्यत्स्वर्गवासिनः दृश्यन्ते तादमोदन्ते पात्यमानाश्च नारकाः स्वर्गेऽपि दुःखमतुलं यदारोहणकालतः प्रभृत्यहं पदिष्यामीत्येदन्मनसि वर्तते नारकांश्चैव सम्प्रेक्ष्य महद्दुःखमवाप्यते येदां गतिमहं गन्धेत्यहर्निशमनिर्वृतः गर्भवासे महद्दुःखं जायमानस्य योनितः जातस्य बलाभावे वृद्धत्वे दुःखमेव च कामेर्ष्या क्रोधसम्बन्धं यौवने चादिदुःसहं दुःखप्राया वृद्धता च मरणे दुःखमुत्तमं कृष्णमाणस्य याम्यैश्च नरकेषु च पात्यतः पुनश्च गर्भोजन्माधमरणं नरकस्तथा एवं संसारचक्रेस्मिन् जन्दवो खडियन्त्रवत भ्राम्यन्ते प्राकृतैर्बन्धैर्बद्ध्वा बाध्यन्ति चासकृत नास्ति तात सुखं कुले तस्मान् मोक्षाय यतता कधं सेव्या मयात्रयी इति श्रीमार्कण्डेयपुराणे पित्रापुत्रसंवादो नाम एकादशोऽध्यायः ओ